श्रीमद्भागवतमहापुराणं चतुर्तुस्कन्द अथ चतुर्विंशोऽध्यायः मैत्रे उवाच विजिता स्वोधिराजासीत्पृसुपुत्र पृषुस्रवाः यवीयोभ्यो ददात् काष्ठा भ्रातृभ्यो भ्रातृवश्चलः हर्यक्षायादि सत्प्राचीं दक्षिणाम् प्रतीतिं विकसंज्ञाय तुर्यां द्रमुणसे विभो अन्तर्ध्यानगतिं शक्राल्लब्ध्वान्तर्ध्यानसंज्ञितः अपत्यत्रयमाधत्तशिखण्डिन्यां सुसम्मतं पावकपमानस्य सुतिरित्यग्नः पुरां वसिषसापादुत्पन्ना पुनर्योगतिं गताम् अन्तर्धानो नभस्त्वत्यां धविर्धानम् अवन्दित य इन्द्रमश्वहर्तारं विद्वानपि न जग्निवान् राज्ञां वृत्तिं करादानदण्डशुल्कादिदारुणां मन्यमानो दीर्घतत्र व्याजेन विससर्जः तत्रापि हंसम् पुरुषं परमात्मानमादृक जनस्तल्लोकतामापकुशलेन समाधिना हविर्धानाद्यभिर्धानयीं विदुरासु चषट्सुतान् बर्हि सतं गयं शुक्लं कृष्णं सत्यं जितव्रतं बर्हिसतं सुमहाभागो हाविर्भिर्धानि न प्रजापतिः क्रियाकाण्डेषु निष्णातो योगेषु च यस्येदं देवयजनम् अनुयज्ञं वितन्वतः प्राचीनाग्रहीकुशैरासीदास्त्रितम् आस्त्रितं वसुधातलं सामुद्रिं देवदेवोक्ताम् उपयेमे सदधृतिं यां वीक्ष चारु सर्वाङ्गीं किशोरिं शुश्लवं कृतां परिक्रमन्तिद्वाहे चकमेऽग्निशुकीमिव विविधा सुरगन्धर्वमुनिसिद्धनरोरगाः द्विजता सुरीया दिक्षु कुळयन्त्यैव नूपुरैः प्राचीनवर्षिष पुत्रा सदृष्ट्यां दशा भवन् तुल्यनामव्रता सर्वे धर्मस्नाता प्रचेतसा पित्रा दृष्टा प्रजा सर्गे तपसेणवमाविशन् दशवर्षसहस्राणि तपसा च यदुक्तं प्रसिदिष्टेन गिरिशेन प्रसीदता तद्ध्यायन्तो जपन्त्यश्च पूजयन्तस्य संयताः विधुवाच प्रचेतसां गिरित्रेण यथा चेत् पथिसङ्गमः यदिताः हरप्रीतस्तन्नो ब्रह्मन्वदार्थवत् सङ्गमः खलु विप्रर्षे शिवेनैहशरीरिणां दुर्लभो मुनियो दध्योरसङ्गाद्यम् अवीप्सितम् आत्मा रामोऽपि यस्त्वस्य लोककल्पस्य राधसे सत्या युक्तो विचरति घोरया भगवान् भवत्रीवाच प्रचेतस पितुर्वाक्यं शिरसादाय साधव दिशं प्रतीचिं प्रयो तपः स्यादिति चेतस समुद्रमुपविस्तीर्णम् अपश्यन् शु महसरः नहन्मनैवं स्वक्ष्मं प्रसन्नशलिलाशयं नीलरक्तोत्पलाम्भोज हंससारसहंसचक्राह्वकारण्डवने कूजितं भ्रमरसौ स्वर्यशिष्ठरोमलताङ्कृपं पद्मकोसरजो दीक्षो वीक्षिपत्पमनोत्सवं तत्र गान्धर्वमाकर्णदिव्यमार्गमनोहरं विशिष्ट्रस्यो विशिष्यों योराजपुत्रास्ति मृदङ्गणवाद्यनो तर्हे वा सर्षस्तस्मान् निष्क्रामन्तं सहानुकम् उपगीयमानम् अवरम् अप्रवरं विविधानुगैः सप्त हेमानिकायाभं श्रीकण्ठं त्रिलोचनं प्रसादशुमुखं वीक्ष्य प्रणे मूर्जातकौतुकाः स तान् प्रपन्नार्तिहरो भगवान् धर्मवश्चलः धर्मज्ञानशीलसम्पन्नान् प्रीतप्रीतानुवाचः त्रिरुद्रुवाच यूयं वेदिसदः सदपुत्राविदितं वस्य कीर्षितम् अनुग्रहाय भद्रं वा एवं दर्शनं कृतं या परं रहस साक्षात् ऋगुणाद्य सङ्गितात् भगवन्तं वासुदेवं प्रपन्न स प्रियो हि मे स्वधर्मनिष्ठञ्जन्मवि परं हि अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधा कलाद्ये अथ भागवता यूयं प्रिया स भगवान् यथा न मद्भगवान् भगवतानां च प्रियानन्योति कर्हिते इदं विविक्तं पवित्रं मङ्गलं परं निशेसस्करं चापि श्रूयतां तद्वदामिव मैत्री इत्यनोक्रोत्सहृदयो भगवान् राहतान् शिवः बद्धाञ्जलिन् राजपुत्रान्नारायणपरो वचः श्रीरुद्रुवात् जितं त आत्मविरुन्धुन्धुर्यश्वते स्वस्तये स्वस्तिरस्तु मे भगवता राधसाराद्धं नमः नमः पङ्कजनाभाय दासदेवाय शान्ताय कूटस्थाय स्वरोचे तङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मरे नमो नमो निरुद्धाय शिशिके श्रीन्द्रियात्मरे नमः परमहंसाय पूर्णाय निभृतात्मरे सर्गापवर्गद्वाराय नित्यं शिष्यदे नमः नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे नमोर्जय क्षेत्रय्यापते यज्ञरेतसे त्यक्तिदाय च जीवानां नमः सर्वरसात्मने सर्वसत्त्वात्मदेहाय विशेषाय सवीयसे नमस्त्रैलोक्यपालाय सह ओजो बलाय अर्धलिङ्गाय नमसे नमोन्तर्बहिरात्मरे नम पुण्याय लोकाय अमुस्मै भुरिवर्चसे त्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणो नमो धर्मविपाकाय मृत्युवे दुःखदाय च नमस्त आशिषामीशमन्वे कारणात्मरे नमो धर्माय बृहते कृष्णाय कुण्ठमेधसे पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय तक्वृं शक्तित्रयसमेताय मीडिते हंकृतात्मले चेत आकुतिरूपाय नमोवाचो विभूतये दर्शनं नोति दिक्षूणां देहि भागवतार्चितं रूपं प्रियतमं स्वानां सर्वेन्द्रिगुणाञ्जनं स्निग्धप्राणिं घनश्यामं सर्वसौन्दर्यसङ्ग्रहं चार्वायत चतुर्बाहुं सुजातरुचिरानम् पद्मकोशपलाशाक्षं सुन्दरभ्रूसुनाशिकं सुद्विजं शुकपोलाश्यं शमकर्णविभूषणं प्रीतिप्रहसीतापाङ्गमलकैरुपशोभितं तदत्पङ्कज किं जल्कदुकूलं वृष्टकुण्डनं स्फुरत् किं स्फुरत्किरीटयहारनपुरमेखलम् शङ्खचक्रगदापद्ममालामन्युत्तमर्हितं सिंहस्कन्धं त्रिषो बिभ्रसौभग्रीवकौसुभां शियानापायिन्या क्षिप्तनिकसा स्मोरसोल्लसन् पुरुरेचकसंविघ्नवलीवल्गूदलोदरं प्रतिसङ्क्रामि यद्विश्वं नाभ्यावर्त गभीरयाम् श्यामशोण्यधिरोश्चिष्णुदूं दुकुलस्वर्णमेखलं समुचारङ्घीजङ्घोरु निम्नजानु सुदर्शनं पदासरत्पद्मपलासरोचिसानखदुर्विर्णोऽन्तर्भं विदुन् विदुन्मतां तदर्शय स्वीयमपास्तसाद्वसं पदं गुरो मार्गगुरु एतद्रुपमध्येयम् आत्मशुद्धिमभिप्सतां यद्भक्तियोगो भयद